महावाक्यरत्नाबले षोडशम् प्रकरणम् अथ सार्धान्तिकसर्वस्वरूपवाक्यानि चत्वारिंशत् ओङ्कार एवेदं सर्वम् स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदम् सर्वम् अहमेवाधस्ताहद अहम् उपरिष्टादहम् पश्चादहम् पुरस्तादहम् दक्षिणतोऽहम् उत्तरतो अहम् एवेदम् सर्वम् आत्मैवादस्तादात्म परिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम् आत्मैवेदमममृतमिदं ब्रह्मेदं सर्वम् एतद् ब्रह्म एतत् सर्वम् नारायण एवेदं सर्वम् सच्चिदानन्दस्रूपमिदं सर्वम् सत्तामात्रं हेदं सर्वम् मत्स्वरूपम् एभेदं सर्वम् स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः स्वयं विश्वमिदं सर्वं स्वस्मादन्यत् न किञ्चन मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः जितिन्मात्रिन्मात्रहे यकिंचिदिंचिच्चिन्मात्रहे अखंडैकर ये वह भूत भव्यम भविष्य हहे ज्ञाता चिन्मात्ररूपश्चिन्मात्रे यच्च यावच्च दूरस्थं चिन्मात्र वहे चिन्मात्रान्नास्ति लक्ष्यं चिन्मात्र आत्मनो आत्मनोऽन्या गतिर्नास्ते सर्वमात्मयं जगत् आत्मनोऽन्यत्तुषं नास्ति सर्वमात्मयं जगत् सर्वम् आत्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् सर्वं च खल्विदं ब्रह्म नित्यचिद्गणमक्षतम् समस्तं खल्विदं ब्रह्म सर्वमात्म यदमाततम् न त्वं नाहं न चान्यं वा सर्वं ब्रह्मैव केवलम् न तदस्ति न यत्राहं न तदस्ते न तन्मयम् किमन्यदभिवाञ्छामि सर्वं सच्यन्मयं ततम् भ्रान्तिर्भ्रान्तिर्नास्त्येव सर्वं ब्रह्मैव केवलम् न देहो न चर्मा ब्रह्म कवल लक्षण विज्ञानम जगन्ना चा भाति ब्रह्म कवल ब्रह्मद्रहमस न ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् सर्वं प्रशान्तम् अजम्मेकम् अनादिमध्यम् अभास्वरम् स्वदनं मातृम् अचैत्यम् अचिह्नम् सर्वं प्रशान्तमिति शब्दमयि च दृष्टिर्बोधार्धमेव हि मुधैव तदौमितेदम् इति सार्धान्तिकस्सर्वस्वरूपवाक्यानि चत्वारिंशत् षोडशं प्रकरणं समाप्तम्